गर्गसंहिता खण्डं फैव् मधुराखण्डम् अध्यायम् एय्टीन् बर्फिष्मदी भव ऊजुः अहोलयाब्धौ कृपया हरिर्यामुद्धृत्य वाराहतनुर्महात्मा तामन्वधावधृतशिञ्जिनीशरो भूत्वा दयालुप्पृधुरादिराजः लदा गोप्य ऊचुः स्वयं स्वधां वानविभज्य पूर्वं महात्मा तद्बद्धवैरेषु सुरासुरेषु भूत्वा धयोषिप्रददौ कलिप्रियः ्रकियाचु अधे मे न महो वरम हरी साम शूर्पण काम महाने चकार सौम सखु महोदय किम्रिय सम्रकूचु नित्यं गृहा शतं व्यान्दी धात्री सुदुःखं सुखं जनान् स्वीया कथं सुशीला च चञ्चलास्मिन् कथं स्थिता अप्सरस ऊचुः अस्य प्रीत्या कर्णनासे गदेवैरावणस्वसुः त्यजन्तु वार्तां तेनापि भवतीनां कृपाकृता। कृता दिव्याऊचुः सर्वेश्वरो बलिं नीत्वा बलिं बद्ध्वा दयापरः अधः क्षिपन्मुक्तिनाथश्चित्रं तत्कथया भवत् शतरूपायुधं शान्तं तपस्यन्तं मनुं पुरा दैत्यैर्बाधां गतं पश्चाद्ररक्षासौ दयानिधिः सत्ववृत्तय ऊचुः पूर्वं कष्टगतं भक्तं ध्रुवं कायाधवं च वै चा रक्षकृपया न पूर्वं दीनवत्सलः रजोवृत्तय ऊचुः रुक्माङ्गदहरिश्चन्द्राम्बरीषाणां सदां हरिः सत्यं परीक्षन् प्रददौ पुनर्भागवतीं श्रियं तमोवृत्तय ऊचुः वृन्ताय नलम् प्राप्ता चलिना बलिना पुरा चलमय्या बलिनद्य चलमय्या बलिनाद्य कुब्जया चलितो ह्यं कृपाणि ह्येकतो वक्रादयन्दीजनान् बहून् किमु कुब्जा त्रिवक्रा च श्रीकृष्णेन त्रिभङ्गिना पश्यन्तीनां कृष्णमार्गं नेत्रे दुःखं गदे भृशम् अवद्धिः पादविक्षेपं वा मनस्य करोति हि पीतत्वं त्वग्गता शैधिल्यं प्रगतौ जनः मनो विभ्रमदा मुग्रां माधवे माधवं विना सपत्नीहार चिह्नाढ्यमागतम् तमुषः क्षणे हादैव कस्मिन् समये द्रक्ष्यामो नन्दनन्दनम् नं। श्रीनारद उवाच यदि कृष्णम् चिन्तयन्त्यो गोपिकाप्रेमविह्वलाः उत्कण्डितास्तारुदुर्मूर्छिदा धरणीम् गदाः पृथक् पृथक् समाश्वास्य वचोभिर्नयनैपुणैः सम्बोध्य गोपिका सर्वाः प्राह राधां तदोद्धवः उद्धव उवाच परिपूर्णतमे कृष्णे वृषभानुवरात्मजे गन्तुमाज्ञा देहि मह्यं नमस्तुभ्यं व्रजेश्वरि प्रतिपत्रं देहि शुभे श्रीकृष्णाय महात्मने तेन तञ्च प्रणम्याशुसमानेष्ये तवान्तिकं श्रीनारद उवाच अधराधालेखनीं च नीत्वा पात्रम् अषेस्त्वरम् समाचारं चिन्तयन्ती तावदश्रूणि शुश्रुवुः यद्यत्पत्रं समानीतं राधया लेखनीयुतं तत्तदार्द्रीकृतं जातं नयनां बुजवारिभिः अश्रुप्रवाहं मुञ्जन्तीं कृष्णदर्शनलालसाम् उद्धवो विस्मयन्प्राह राधां कमललोचनाम् उद्धव उवाच कथं लिखसि राधे त्वं कथं दुःखं करोषिः सर्वां तस्मै वदिष्यामि व्यथां त्वल्लेखनं विना श्रीनारद उवाच यदि श्रुत्वा वचस्तस्य राधया गदबाधया सर्वाभिर्गोपिकाभिश्वपूजितोऽभू ततोद्धवः नत्वा प्रदक्षिणीकृत्य राधां रासेश्वरीं परां गोपीगणमनुज्ञाप्य नत्वा नत्वा पुनःपुनः पुनः रथमारुह्य दिव्याभं रत्नभूषणभूषितम् गतभृत्याभिमानोऽसौ सन्ध्यायां नन्दमाययौ मार्तण्ड उदयं प्राप्ते न त्वा गोपीं यशोमदीं नन्दराजमनुज्ञाप्यनवनन्दांस्तदोद्धवः वृषभानुपनन्दाश्च समनुज्ञाप्यलोकतः तथा कृष्णसखीन् सर्वान् प्रथमालुह्य निर्गतः दूरं तमनुग सर्वे गोपा गोपीगणस्तथा सनिवृत्त्यातान् स्नेहादुद्धवो मधुरां ययौ यकान्ते चाक्षयवटे कृष्णातीरे मनोहरे नत्वा कृष्णं परिक्रम्य गदया गिरा प्राहस्रवन्नेत्रपद्म उद्धवो बुद्धिसत्तमः उद्धव उवाच किं देव कथनीयं मे भवतो शेषसाक्षिणः विद्धत्स्वशं राधिकाया गोपीनां देहि दर्शनं श्रीकृष्णं देवदेवेशम् समानेष्येतवान्तिकम् इद्धं वाक्यं च मे भूतं रक्ष रक्षकृपानि ते प्रह्लादरुक्माङ्गदयोप्रतिज्ञा बलेश्च खड्वाङ्गनृपस्य साक्षाद् जाम्बरीषध्रुवयोस्तधा मे कृता जभक्तेश्वररक्षरक्ष इति श्रीगर्गसंहितायाम् मधुराखण्डे गोपीवाक्ये उद्धवागमनम् नामाष्टादशोऽध्यायः ओम् अध्यायम् नैन्टीन् श्रीनारद उवाच इद्धम् निशम्य भक्तस्य वचनम् भक्तवत्सलः स्मृत्वा वाक्यम् स्वकथितम् गन्तुं चक्रेच्युतो मदिं बलदेवं स्थापयित्वा कार्यभारेषु सर्वतःकणोज्जालं हे हेमाढ्यं किङ्कणोजालं चञ्चलाश्वनियोजितं रथमारुह्य सूर्याभमुग्धवेन समन्वितः भक्तानां दर्शनं दातुं प्रययौ नन्दगोकुलं गोवर्धनं गोकुलं च पश्यन् वृन्दावनं वनं प्राप्तोऽभूत्पुलिने कृष्णकृष्णातीरे मनोहरे कोडिष्यकोडिशोगावो दृष्ट्वा कृष्णं ब्रजाधिपं। आधा वन्द्य सर्वतस्थम् स्नेहस्नुतपयोधराः उदास्य कर्णवांश्च रम्भमाणाः स वत्सकाः मुखे कवलसंयुक्ता अश्रुमुख्यो गतव्यथाः सरधं सारुणं साश्वं शरदर्कं यथा रुरुधुस्तम् रथम् राजनुद्धवस्य प्रपश्यतः श्रीगोपालो हरिष्टासां वदन्नाम पृथक् प्रधक पृथक् श्रीहस्तेन तदङ्गानि स्पृशन् हर्षम् जगामः तत्समीपे गवाम् वृन्दम् गतम् वीक्ष्य व्रजार्भकाः श्रीदामाद्या विस्मिताश्च दूरादूचुः परस्परं गोपावुजुः रथं सकुम्भध्वजवायुवेगं सुकांस्य पत्रध्वनिःस्वनं तं शदाश्वयुक्तं शदसूर्यशोभं गावः कथं वारुरुधुःसखायः अन्यो न हि गवां प्रकर्षणायैरायादिकिन्दु व्रजराजनन्दनः स्फुरन्ति चङ्गानि हि दक्षिणानि नः श्रीनीलकण्ठप्रदनोदितोरणं श्रीनारद उवाच युद्धं विचार्य मनसा गोपाः सर्वे समागताः ददृश्योर्माधवं मित्रं गदं वस्तु यथा कृष्ण परिपूर्ण तमस्वयं पुरोनिधाय तान् सर्वान् दौर्भ्यां तत्प्रेमविह्वलः मुञ्जन्नेत्राब्जवारीणि परिरेभे पृथक् पृथक् अहो भक्तेश्च माहात्म्यं वक्तुं कोऽस्तिमहीतले ते सर्वरुदुर्गोपामुञ्जन्तोश्रूणिमैथिल प्रवक्तुं न समर्था श्रीकृष्णविक्षेपविह्वलाः परिपूर्णतमसाक्षाद्देवो मधुरया गिरा प्रेमानन्द समाकुलान। उद्धवप्रेषितो वक्तुं श्रीकृष्णेनार्भकैः सह आगतं कथयामास श्रीकृष्णं नन्दपत्तने श्रुत्वा गतं नन्दसूनुं श्रीकृष्णं गोपीवल्लभम् आनेतुं निर्गता सर्वे परिपूर्णमनोरथाः भैरीमृदङ्घै पडहै कलस्वनैरपूर्ण कुम्भैर्द्विजवेदघोषणैः गन्धाक्षतैर्मङ्गललाजमिश्रितैः श्रीनन्दराजोभियौ यशोदया तदपुरस्कृत्य मदोन्नतं गजं सिन्धूरशुण्डाधृतहेमशृङ्गलम् समाययौ श्रीवृषभानुमुख्यो भावान् कृदिस्तत्र कलावदीयुदख नन्दोपनन्दावृषानवश्च गोपाश्च वृद्धास्तरुणार्भकाश्च स्रग्वेणो गुञ्जा परिपिच्य युक्ता विनिर्गता पूर्णमनोरथास्ते यन्द आरा नृपनन्दनं तनम् नृत्यं द आचालिदपि दवासः वंशीधरा वेत्रविषाणपाणयः प्रहर्षिदा दर्शनलालसा भृशं सखिमुखेभ्यो हरिमागदं पराम् निषभ्यराधा शयनात् समुद्धिता ताभ्यस्वभूषा प्रददौ प्रहर्षिता प्रीता स्वगन्धिं नवपत्मिनी यथा द्वात्रिंशदष्टौ किलषोडश द्वे यूथैर्युधा मैथिलगोपिकानाम् आरुह्य राधा समाययौ श्रीधरदर्शनार्थं तथा हि गोप्यकिल कोडिशश्च त्यक्त्वाथ सर्वं स्वगृहस्य कृत्यम् व्यत्यक्तवस्त्राभरणानृपेश समाययुप्रेमचलन्मनोङ्गाः सर्वं व्रजम् पादपगोमृगद्विजम् प्रेमादुरम् वीक्ष्य समागतम् किमु श्रीनन्दराजम् पितरम् च मातरम् न नाम कृष्णकृतमस्तकाञ्जलिः श्रीनन्दराजस्तनयम् चिरागदम् प्रगृह्य दोर्भ्याम् हृदये निधायधम् संस्नापयामस सुनेत्रजैर्जलैर्यशोदया प्राप्तमनोरथश्चिराद नन्दोपनन्तान् वृषभानुवृद्धान् सर्वान्नमस्कृत्य च तत्कृताशीः तथा वयस्यैव परस्परम् वा लघूंश्च हस्तग्रहणै स्थितोऽभूद तद समारुह्य रथं हरिं स्वयं निधाय नन्दं च गजे यशोदया नन्दोपनन्दैः सहितो गवाङ्गणैः श्रीनन्दराजस्य पुरं विवेश सह तथैव देवा किल पुष्पवर्षामाचारराजान् पुरगोपिकाश्च प्रचक्रिरे तत्र जयेदि मङ्गलं शब्दं च गोपा गृहमागदे हरौ धन्यः सखादे परमुद्धवेयमनेन साक्षात् किल दर्शितोऽत्र त्वं जीवनं गोपजनस्य गोपा ऊजुर्गिरा गद्गदय दात्मार्ताः ऊचुर्गिरा गद्गदयेदमार्ताः इदं मया ते नृपेश पुनर्व्रजे ह्यागमनं हरेश्च किमिच्छ शिश्रोदुमधोसुरासुरैः परं चरित्रं शुभदं विचित्रं यदि श्रीगर्गसंहितायां मधुराखण्डे श्री श्री नारद बहुलाश्व श्रीनारदबहुलाश्वसंवादे श्रीकृष्णागमनोत्सवो नामैकोनविंशोऽध्यायः ना ओम् अध्यायम् 20 बहुलाश्व उवाच अग्रे चकार किं साक्षाद्भगवान् व्रजमण्डले राधायै कोपिकाभ्यश्च कथं स्विद्दर्शनं ददौ गोपी मनोरथं कृत्वा मधुरामा जगामः यदन्मे परावरवित्तमः श्रीनारद उवाच सन्ध्यायां राधया हूत श्रीकृष्णो भगवान् स्वयम् एकाम् देशीदलम् शश्वज्जगामकदलीवनम् स्वारस्फुरणमेक गृहम् ब्रह्मा चन्दनचर्चितम् कृष्णा गरुत्सीकरम् च सुधारश्मि गलत्सुद्धम् एतादृशं वनम् राधा वियोगानलवर्चसा भस्मीभूतं हि सततं कृष्णा शातां हि रक्षति तत्रैव सर्वे गोपीनां शतयूथात् समागताः तस्यै निवेदनं चक्रुर्माधवा गमनस्य हि उद्धाय सहसा साक्षाद्वृषभानुवरात्मजा आनेदुमाययौ कृष्णं सखीभिः परिवारिता ददा वास्तनपाद्यार्कानुपचारान् मनोहरान् वदन्ति सादरं वाक्यम् कुशलम् कुशलाधिका युवकन्दर्पकोटीनामाधुर्यहारिणं हरिं दृष्ट्वा राधा जहौ दुःखं ब्रह्म गुणं यथा प्रसन्ना तत्र शृङ्गारमकरोत्कीर्तिनन्दिनी तयानोकारी नोकारि शृङ्गारपान्धे कृष्णे गदे सति न चन्दनं च ताम्बूलम्भोजनम् च सुधासमं न कृतम् दिव्यशजनम् हास्यं वा न परिपूर्णतमं कृष्णं परिपूर्णतमप्रिया आनन्दाश्रूणि मुञ्जन्ती प्राहगद्गतया गिरा राधोवाच कियद्दूरे यदुपुरीना गतं किं करोषिः किं वदेहं रहो दुःखं भवतो शेषसाक्षिणः सौदास राजमहिषी दमयन्ती च मैथिली नास्त्यत्र काम् पुरस्कृत्यवदेहम् विरहम् रिपुम् मत्समानाश्रया गोप्यो गदितुम् न क्षमा क्वचिद शरच्चन्द्रचकोरीवमयूरीव कनम् नवम् श्रीवृन्दावनचन्द्रम् त्वाम् कनश्यामम् समुत्सहे तव सख्योद्धवेनशु धन्येन त्वं प्रदर्शितः अन्यः कोऽपि यस्य प्रेम्णा श्रीनारद उवाच एवं वदन्ति सततं रुदन्तीं परां प्रियां वीक्ष्य कृणातुराङ्ग आश्वासयामासनयेन सद्यः प्रबृह्यदोर्भ्यां श्रवदम्बुनेत्रः श्रीभगवानुवाच माशोकम् गुरुराजे त्वम् त्वत्प्रीत्याकं समागतः आवयोर्भेदरहिदम् तेजश्चैकं द्विधा जनैः यथा हि दुग्धधावल्ये तथा वां सर्वदा शुभे यत्रासम् त्वम् सदा तत्र विश्लेषो नहि चावयोः पूर्णब्रह्मपरम् चाहम् तदस्तात् त्वम् जगत्प्रसूः विश्लेष आवयोर्मध्ये मृषाज्ञानेन पश्यसद यथा पाशस्थितो नित्यम् वायुः सर्वत्र महान् तथा जलम् सूक्ष्मरूपम् तेजोव्याप्तम् यथैथसि अन्तर्बहिर्यथा पृथ्वी पृथग्भूतावरानने तथा विकाररहितो मलवत्त्रिगुणैरसं तथा त्वं पश्य मद्भावं सदानन्दो भवेत्तदस अहं मेदि भावेन द्वितीयोऽस्ति वरानने यावद्वने मध्यगतस्तदुद्धिदः स्वं रूपमर्कं न हि दृक्प्रपश्यदि तावत् परात्मानमसौ प्रधानजैर्गुणैस्तधातेषु गदेषु पश्यदि गुणेषु मनोद्वयो कारणमाहुराराजित्वाध तत्कौ विचरेदसङ्गः सर्वहि भावम् मनः साखा परस्परम् न ह्ये कदोभामिनि जायते तदः प्रेमैव कर्तव्यमदो मयि प्रेम्णा समानम् भुवि नास्ति श्रीनारद उवाच यदि वाक्यं हरे श्रुवा प्रसन्ना कीर्तिनन्दिनी, गोपिका कृष्णं पूजयामा समाधवं, सवम अधरात्र हरिसाक्षाक्यासम्डे गनाद मुरी गोपीराधया सह यमुनाकड़े राजधया राधिकापरी भिस रुंदरी रासरङ्गेरराजः यावदीर्गोपिकारासे तावद्रूपधरोहरिः रेमे वृन्दावने दिव्ये हरिर्वृन्दावनेश्वरः क्वणन्नूपुरमञ्जीरोवनमालाविराजितः पीताम्बरपद्मधारीप्रभातर्क किरीटधृक विद्युल्लता सुरत्प्रोद्यद्धेमकुण्डलमण्डितः ृद्वादयन्वं श्रीद्वायन वेत्रभृद्वाद यन्वं, वेत्र वेत्र यन्वं शीं नडवेषो खनद्युतिः स्फुरत्कौस्तुभरत्नाढ्यप्रचलत्स्निग्धकुन्दलः रराजराधया राशेयधारत्या रदीश्वरः शत्या शक्रो यथा स्वर्गे हनश्चञ्चलया यथा वृन्दया वृन्दकारण्ये तथा वृन्दावनेश्वरः वृन्दावनं च पुलिनं वनान्युपवनानि च पश्यन् कोऽपि सार्धं गिरिं गोवर्धनं ययौ गोपीनां शतयूथानाम् मानम् वीक्ष्य व्रजेश्वरः भगवान् राधया साकम् तत्रैवान्तरधीयत अध गो वर्धना दूरे सुन्दरम् योजनत्रयम् श्रीखण्डगन्धसंयुक्तम् स ययौ रोहिताचलं लता कुञ्जनिकुञ्जाश्च पश्यञ्जल्पंस्तया सह विचचारगिरौ रम्ये काञ्चनीलतिकाय तिकालये तत्र देवसरो रम्यं भद्रिनाथेन निर्मितं पाढीन कूर्मनक्रादिहंसारसङ्गुलं सहस्रदलपद्मैश्च मण्डितं तदितस्तदः भ्रमरध्वनि संयुक्तम् पुंसो कोकिल रुदव्रतम् विकसत्पद्मगन्धाढ्यं तत्तीरं मन्दमारुदम् रमया राधया सार्धं माधवो निशसादः तत्तीरं प्रद पश्यन्तं ऋभुं नाम महामुनिं पदैकेन स्थितं षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च निरन्नं निर्जलं शान्तं श्रीकृष्णस्तं ददर्शः पप्रीक्ष्य तं राधाः सन्धिप्राहमाधवम् माहात्म्यं गुरुभक्तोऽयं पश्य भक्तिं महामुनेः हे ऋभो यदि कृष्णेन प्रोक्तमुच्चैर्वचः शुभम् न श्रुतं तेन किञ्चिद्वाचरमं प्रापितेन वै हरिस्तदा तद्धृतयाद् बभूवा नेत्रे उन्मील्य ददृश्ये श्रीकृष्णं राधयागतं कनं चञ्चलये वाढ्यं रञ्जयन्तम् दिश्योदश्च उद्धादसद्यो तत्परः प्रदक्षिणीकृत्य हरिं सराधिकं प्रणम्य मूर्ध्ना निपपादपादयोरुवाच कृष्णं बहुगद्गदाक्षरः श्रीऋभुरुवाच नमः कृष्णाय कृष्णायै राधायै माधवाय च परिपूर्णतमायै च परिपूर्णतमाय च खनश्यामाय देवाय श्यामायै सततं नमः रासेश्वराय सततं रासेश्वर्यै नमो नमः गोल्लोकातीतलीलाय लीलावत्यै नमो नमः असङ्ख्याडाधिदेव्यै च असङ्ख्याण्डनिधये नमः भूभारहाराय भुवं गदाभ्यां मच्चान्दये चात्रसमागताभ्यां परस्परं सन्धितविग्रहाभ्यां नमो युवाभ्यां हरिराधिकाभ्यां श्रीनारद उवाच इत्युक्त्वा कृष्ण पादाब्जे प्रक्षरद्बाष्पलोचनः प्रेमानन्दसमयुक्तो जहौ प्राणान्महामुनिः तदैव निर्गतं ज्योतिर्दश सूर्यसमप्रभं परिभ्रम दशदिश्रीकृष्णे लीनदाङ्गतं भक्तस्य भक्तिं श्रीकृष्णो वीक्ष्य वै आनन्दाश्रुकलाम् मुञ्जन् प्रेम्णादम् चाजुहावच पुनः श्रीकृष्णपादाब्जात्कृष्णसारूप्यवान्मुनिः निर्गतकोडिकन्दर्पसन्निभोदिनताननाः तोभ्याम् प्रगृह्य हृदये तम् निधाय कृपाकरः आश्वास्य कल्याणकरम् करम् दिव्यम् दधारः प्रदक्षिणीकृत्य हरिम् चराधिकाम् प्रणम्यचारुह्यरथमनोहरम् गोलोकलोकम् प्रयया बृभुर्मुनिर्विरञ्जयन्मैथिलमण्डलम् दिशाम् श्रीराधिकाविस्मयमागदा भृशम् दृष्ट्वा परां मुक्ति मृभोर्महामुनेः आनन्दवारिणि विमुञ्चति चिरम् जगादकृष्णम् वृषभानुनन्दिनी यदि श्रीगर्गसंहितायाम् मधुराखण्डे रसो रासोत्सवे ऋभुमोक्षो नाम विंशोऽध्यायः ओम् अध्यायम् ट्वेण्टिवन् श्रीराधोवाच धन्योऽयं मुनिशार्दूलस्त्वद्भक्ते प्रेमवान् महान् त्वत्सारूप्यं जगामासौ त्वमप्यश्रुमुखो यदः अस्य देहक्रियां कर्तुं योग्योऽसि वृजिनार्दन तपसा चास्य देहोऽयं ह्रस्फुरत्यमलाकृतिः श्रीनारद उवाच वदन्त्याम् वदन्त्याम् तत्र राधायाम् तद्देहोऽप्यभवत्सरिद वहन्दीपापहन्त्री च दृश्यदे रोहिते गिरौ तद्देहस्यापि सरितम् वीक्ष्य राधादिविस्मिता नन्दराजात्मजम् प्राह वृषभानुवरात्मजा श्रीराधोवाच कथं जलत्वमापन्नो देहोऽयं वै महामुनेः एतन्मे संशयं देवच्चेत्तु अर्हस्य अशेषदः श्रीभगवानुवाच प्रेमलक्षणया भग्र्या संयुतोऽयं मुनीश्वरः तस्मादस्य तु देहोऽयं ब्रह्मोरुद्रवताङ्गदः दृष्ट्वा त्वया मां वरदं हर्षितो भून्महामुनिः जलत्वं प्राप तद्देहो यथा कन्द्रवतां पुरा श्रीराधोवाच द्रवतां त्वं कथं प्राप्तो देवदेवदयानिधे दे। यदच्चित्रं हि मे जातं सर्वं त्वं वद विस्तराद श्रीभगवानुवाच अत्रैवोदाहरन्दीमितिह सम्पुरातनम् यस्य श्रवणमात्रेण पापहानिः परं भवेद यन्नापि पङ्गजादः पुरा ब्रह्मा प्रजापतिः असृजत्प्रकृतिं शश्वतपः सा मध्वरोऽर्जितः उत्सङ्गान्नारदो जज्ञे ब्रह्मणसृजद शुभः भक्त्युन्मत्तो मत्पदानि निजगौ पर्यडन्महीं यकदा नारदं प्राहदेवो ब्रह्मा प्रजापदिः प्रजासृजमहाबुद्धे वृद्धा चङ्क्रमणं त्यज नारदस्तद्वज श्रुत्वा प्राहेदं ज्ञानतत्परः न सृजामि पिदसृष्टिं शोकमोकाधिकारिणीं हरेर्भक्तिं हरिर्भक्तिं तत्कीर्तनसमन्विताम् त्वमपि सृष्टिरचनां त्यज दुःखाधुरो भृशं क्रुद्धशशापतम् ब्रह्म प्राह प्रस्फुरिदाधरः सदागानपरकल्पं गन्धर्वो भवदुर्मदे एवम् तच्चापदो राधे गन्धर्व उपबर्षणः बभुव गंधर्व कल्पमात्रम् सुरालये य कदा ब्रह्मणो लोके स्त्रीभिपरिवृतो गदः सुन्दरीषु मन कृत्वा जगौ तालविवर्जितम् पुनर्ब्रह्मदं शशापत्वम् शूद्रो भव दुर्मदे अथा सौ ब्रह्मशापेन दासी पुत्रो बभूवः सत्सङ्गेन पुरराधे प्राप्तो भूत् ब्रह्म पुत्रताम् भक्तिन्मत्तो मत्पदानि निजगौ पर्यडन्महीम् मुनीन्द्रो वैष्णवश्रेष्ठो मत्प्रियो ज्ञानभास्करः परम् भागवदसाक्षान्नारदो मन्मनाः सदा एकदा नारदो लोकान् पश्यन् वैगानतत्परः इलावृतम् नाम खण्डम् गतवान् सर्वतो गदिः यत्र जम्बूनदिश्याम जम्बूफलरसोद्भव तथा जाम्बूनदं नाम सुवर्णं भवति प्रिये तद्देशे वेदनगरं रत्नप्रासादनिर्मिदम् ददर्शनारदो योगी दिव्यनारीनरैर्वृदम् कांश्चिद्वै पादरहितान् जानुवर्जितान् विगुल्फाञ्जानुवर्जितान् विजङ्खाञ् जघनव्यङ्गान् कृशोरुन्कुब्जमध्यकान् श्वभदन्दोन्नदस्कन्धान् न दाननविकन्धरान् स्त्रीजनान् पुरुषांश्च स भङ्गभङ्गान्ददर्शः अहो किमेतच्चित्रम् हि सर्वां दृष्ट्वा वदन्मुनिः सर्वे योऽयम् पद्ममुखा दिव्यदेहाशुभाम्बराः किं देवा उपदेवा वा यूयं किं ऋषि सप्तमः वादित्र सखिदा सर्वे रम्यगान अङ्गभङ्गात् कथं यूयं वददाशु ममैव हि इत्युक्तास्तेन ते सर्वे प्रत्युजोर्दीनमानसाः रागा ऊजुः महादुःखं मुने जातम् अस्माकं धनुषुस्वतः तस्याग्रे कथनीयं वैदूरी च यः क्षमः रागावयं वेदपुरे वसाम सर्वदा मुने अङ्गभङ्ग जादा कारणं शृणुमानद जादो हिरण्यगर्भस्य पुत्रो नारदनामभाक प्रेमोन्मत्तो विकालेन गायन् पदानि च विचकारमहिमेधां स्वेच्छया स महामुनिः विकाले तस्य गानैश्च विश्वरैस्तालवर्जितैः विगानैश्च वयं सर्वे अङ्गभङ्गा बभूविम तद्वाह्यं नारदो विस्मितो भवद उपा जगद मानोत्सौरागान् मुनिरुवाच तस्य केन प्रकारेण ज्ञानं वै कालदालयोः भवेदिह स्वरैर्युक्तं वददा शुममैव रागावुजुः वैकुण्ठस्य पदे साक्षात् प्रिया मुख्या सरस्वती कुर्या शिक्षाम् यदा तस्मै तदा स्यात्कालविन्मुनिः तेषाम् वाक्यम् तदश्रुत्वा नारदो दीनवत्सलः सरस्वत्या प्रसादार्थम् त्वरम् शुभ्रम् गिरिम् ययौ दिव्यवर्षशतं शश्वतपस्तेपे सुदुष्करम् निरन्नम् निर्जलम् वाणी ध्यानयोक्तम् व्रजेश्वरि शुभ्रं नाम विसृज्याथ पवित्री कृतभूधरं नारदो नाम शैलो भूतपः सा नारदस्य च तपोन्ते आगतां साक्षाद् वाग्देवीं श्रीसरस्वतीं विष्णोप्रियाम् दिव्यवर्णामपश्य मुनिः सहसोद्धायतां नत्वा परिक्रम्य न दाननः तद्रूपगुणमाधुर्यस्तुतिं चक्रे मुनीश्वरः श्रीनारद उवाच न वार्कबिन्दुद्युदि मुद्गलज्ज्वलताडम्केयूरकिरीटकम् कणम् स्फुरकोणन्नूपुररावरञ्जिदाम् नमामि कोडीं दुमुखीं नमामि कोडीन्दुमुखीं सरस्वतीं वन्दे सदाखं कलहं स उद्गदे चलत्पदे चं चलचं चुसम्पुडे निर्धौदमुक्ताफलहारसञ्चयं सन्धारयन्तीं सुभगां सरस्वतीं वराभयं पुस्तकवल्लभीयुधं परं दधानं विमले करद्वये नमाम्यसं त्वां शुभदां सरस्वतीं जगन्मयीं ब्रह्ममयीं मनोहरां तरङ्गिताक्षौ मसिदाम्बरे परे देहि स्वरज्ञानमदीवमङ्गले येन अद्वितीयो हि भवेयमक्षरे सर्वोपरि स्याम् पररागमण्डले श्रीभगवानुवाच स्तोत्रम् जाड्यापहम् दिव्यम् प्रादरुद्धाय यः पठेद नारदोक्तं सरस्वत्या स विद्यावान् भवेदिह तदप्रसन्ना वाग्देवी नारदाय महात्मने देवदत्ताम् ददवीणाम् स्वरब्रह्म विभूषिताम् रागैश्च रागिणीभिश्च तत्पुत्रैश्च तथैव च देशकालादिभेदैश्च ताल मानस्वरैः सह षट्पञ्चाशत् कोटिभेदैरन्तर्भेदैरसङ्ख्यकैः ब्राह्मैर्नृत्यैषवादित्रैर्मूर्च्छनासहितै शुभैः वैकुण्ठस्य पदे साक्षात् प्रिया मुख्या सरस्वती स्वरगम्यै पदै सिद्ध्यै पाठयामासनारदम् अद्वितीयं रागकरं कृत्वा तं रासमण्डले वैकुण्ठं प्रययौरा देवाग्देवी विष्णुवल्लभा श्री श्रीगर्गसंहितायां मधुराखण्डे नारदोपाख्यानम् नामैकविंशोऽध्यायः ओम् अध्यायम् ट्वेण्टि टु श्रीभगवानुवाच कस्मैदयमिदम् गुह्यम् रागरूपम् मनोहरम् बुद्ध्या विचारयन्निद्धम् गंधर्वनगरं ययौ तुम्बुरुं नाम गन्धर्वम् कृत्वा शिष्यं स नारदः कलं जगौ मद्गुणांश्च वीणावाद्यपरायणः केषामग्रे गेयमिदं रागरूपम् मनोहरम् श्रोतुम् पात्रम् विचिन्वन् स नारदशक्रमाययौ अनिर्वृतं च तं दृष्ट्वा नारदो मुनिसप्तमः सख्या तुम् गुरुणा सार्धम् सूर्यलोकम् जगामः रथेन तम् प्रभावन्तम् सूर्यम् वीक्ष्य महामुनिः शिवपार्श्वम् जगामाशु ततो देवर्षि सत्तमः भूतेशम् ज्ञानतत्त्वज्ञम् ध्यानस्थिमिदलोचनम् वीक्ष्यतम् नारदो राधे ब्रह्मलोकम् जगामः सृजन्दं सृष्टिरजनां व्यग्रं वीक्ष्य विधिं मुनिः वैकुण्ठं प्रययौ विष्णो सर्वलोकनमस्कृतं भक्तार्थं, कुत्र गच्छन्तं भक्तदेशम् भक्तदवत्सलं वीक्ष्य तुम्बुरुणा सार्धं योगेन्द्रप्रययौ ततः योगीश्वराणां हि सतां त्रिलोक्या मन्दरं बहिः गदिमाहुर्नाप्नुवन्दि कर्मभिर्वृषभानुजे कोडिश्योह्यण्डनिचयान् समुल्लङ्घ्य मुनीश्वरः गोलोकं परमं तामप्रययौ प्रकृतेः परं समुत्तीर्याशुविरजां नन्दीं कल्लोलशालिनीं ययौ वृन्दावनं रम्यं भ्रमरध्वनिसङ्कुलम् सदा वसन्तर्तुयुधम् मरुतै जल्लतागृस्थम् दृष्ट्वा गोवर्धनम् शैलम् मन्यकुञ्जम् समाययौ कौ युवां कुत्र आयातौ किं कार्यं वदतं च नः युद्धं सखीभिः सम्पृष्टौ ऊच दुर्मुनितुम्बुरू यकौ कुशलौ रामा आवां वीणाकलध्वनिम् परिपूर्णतमम् साक्षात् श्रीकृष्णम् राधिकापदिम् कलं परं श्रावयितुमागधौ बन्दिनां वरौ कथनीयमिदम् वाक्यम् श्रीकृष्णाय महात्मने श्रुत्वा सख्यस्तथा मह्यम् निवेद्याधमदाज्ञया आगत्याज्ञां दुर्याधुम् बन्दिभ्यां श्लक्ष्णया गिरा मन्यकुञ्जाङ्गणे भ्राजत्कोट्यर्ज कोट्यर्कज्योतिराकुले कोट्यार कजित् कौस्तुभरत्नाढ्ये प्रजलचारुचामरे लोलमुक्लफलच्छत्रे सखिकोडिसमन्विते महापद्मस्थितं साक्षात्त्वया मां तावपश्यतां न त्वा प्रदक्षिणीकृत्य तत्र स्थित्वा मदाज्ञया स्तुत्वा मां मद्गुणान्वक्तुं तेना सा उपचक्रमे आतोद्यं विनुदन्वीणां देवदत्तां स्वरामृदं फलं जगावद्वितीयं नारदत्सकुम्बुरु सन्तुष्टोऽकं शिरोद्धुन्वन्देन स्वाख्यम् च तत्स्वरम् दत्वात्मानम् प्रेम्म परो जलत्वम् गतवानहम् यज्जलम् मध्वर्जातं तद्वै ब्रह्म द्रवम् विदुः कोडिशकोडिशोण्डानाम् राशय संलुठन्तीः इन्द्रायणफलानि वानन्ते तस्मिन् जले शुभे पृश्निगर्भमिदं राधे ब्रह्माण्डं मत्पदं स्फुटं भित्त्वा तच्चागदं साक्षादस्मिन्मन्वन्तरे शुभे तत्स्वर्धुनीं विधुपूर्वे श्रीगङ्गां पापहारिणीं दिवि मन्दगिनी प्रोक्ता गङ्गा भागीरधीक्षितौ अधो भोगवति प्रोक्ता त्रिपथगामिनी यस्नातुं गच्छद पुंसप्रणतस्य पदे पदे राजसूयाश्वमेधानाम् फलमस्ति न दुर्लभम् गङ्गा गङ्गेदि यो ब्रूयाद्योजनानाम् शतैरपि मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति दृष्ट्वा जन्मशतम् पापम् पीत्वा जन्मशतद्वयम् स्नात्वा जन्मसहस्राणाम् हन्ति गङ्गा सफलं जन्म वै ये पश्यन्ति हि जाह्नवीं वृथा जन्म गतं तेषां न पश्यन्ति जाह्नवीं यथा खिद्रवदां प्राप्ता विरजा त्वद्भयाद्यथा प्रापुर्द्रवत्वं रम्भोरुविरजाया सुदा यथा यथा कृष्णा नदी विष्णुर्वेणी देवः यथा ब्रह्मा पगुत्मिनी गंगा गंडगीच च यथाप्सराः तथा द्रवत्वं सम्प्राप्त ऋभुर्नामाप्ययं मुनिः प्रेमलक्षणया भक्त्या ऋभोर्वा नात्रसंशयः यशृणोति कदामेधां पवित्रां पावपहारिणीम् उल्लङ्घ्य सर्वलोकां समलोकं यादिमानवः श्रीनारद उवाच यभमुक्त्वा प्रियां राधा मृभोर मृभोराश्रमदोहरिः राधया सहिदो राजनाययौ मालदीवनम् गोपीनां विरहं ज्ञात्वा भगवान् भक्तवत्सलः राधया प्रययौ कृष्णपुलिनम् मङ्गनायनम् तदा गोपीगण सर्वे गदमाना गतमानागतव्यधाः जगृहुस्तं घनश्यामं सौदामिन्यो घनं यथा वृन्दावने हरिसाक्षात्कृष्णाधीरे मनोहरे जगौकलं गोपिकाभि जगौकलं गोपिकाभिः वंशी वादनतत्परः भगवत्कलरागेण मूर्छिता गोपकन्यकाः नद्यो वेगत्वरहिता अजरत्वम् हि पक्षिणः सजलत्वं च तरदो निद्रात्वं प्रगदम् जगद कृत्वा राधिकाया गोपीनां च मनोरथम् रामे मुहूर्ते भगवानाययौ नन्दमन्दिरं राधिका गोपिकाभिश्च प्राप्ता नन्दमनोरथा वृषभानुवरस्यापि मन्दिरं ययौ युद्धि श्रीगर्गसंहितायाम् मधुराखण्डे नारदोपाख्यानम् नाम द्वाविंशोऽध्यायः ओम् अध्यायम् ट्वेण्टि त्रि श्रीभगवानुवाच कस्मै देयमिदम् गुह्यम् रागरूपम् मनोहरम् बुध्या विचारयनिद्धं गंधर्वनगरं व्ययौ तुम्बुरुम् नाम गन्धर्वम् कृत्वा शिष्यं स नारदः कलम् जगौ मद्गुणांश्च वीणावाद्यपरायणः केषामग्रे गेयमिदम् रागरूपम् मनोहरम् श्रोतुम् पात्रम् विचिन्वन् स नारदशक्रमाययौ अनिर्वृतम् च दम् दृष्ट्वा नारदो मुनिसत्तमः सख्या तुम्बुरुणा सार्धम् सूर्यलोकम् जगामः रथेन तम् प्रथावन्तम् सूर्यम् वीक्ष्य महामुनिः शिवपार्श्वम् जगामाशु तदो देवर्षिसत्तमः भूदेशम् ज्ञानतत्त्वज्ञम् ध्यानस्तिमिदलोचनम् वीक्ष्य तम् नारदो राधे ब्रह्मलोकम् जगामः सृजन्तं सृष्टिरचनां व्यग्रं वीक्ष्य विधिं मुनिः वैकुण्ठं प्रययौ विष्णो सर्वलोकनमस्कृतं भक्तार्थं कुत्र गच्छन्तं भक्तदेशं भक्तवत्सलं वीक्ष्य तुम्बुरुणा सार्धं योगीन्द्रप्रयय्यौ तदः योगीश्वराणां हि सदां त्रिलोक्या मन्थरं बहिः गदिमाकुर्नाप्नुवन्ति कर्मभिर्वृषभानुजे कोडिशोह्यण्डनिचयान् समुल्लङ्घ्य मुनीश्वरः को लोकं परमं धामप्रय्यौ प्रकृतेः परं नदीं कल्लोलशालिनीं ययौ वृन्दावनं रम्यं भ्रमरध्वनिसङ्कुलं सदा वसन्तर्तुयुधम् मरुतै जल्लदा गृहं दृष्ट्वा गोवर्धनं शैलं मन्यकुञ्जं समाययौ कौ युवां कुद आयातौ किं कार्यम् वततं च नः युद्धं सखीभिः स्पृष्टौ युद्धं सखीभिः संस्पृष्टौ उच परिपूर्णतमं साक्षात् श्रीकृष्णं राधिकापदिं कलम्बरं श्रावयितुमागतौ बन्दिनां वरौ कथनीयमिदं वाक्यं श्रीकृष्णाय महात्मने श्रुत्वा सख्यस्तद्धा मह्यम् मन्नि निवेद्यामदाजया आगत दुर्याधुम बंदभ्यालया गिरा प्रचल चारुचामरे। कचि कौस्तुरतनाढ़्यो प्रचलचारुचा लोलमुक्ताफल छखी कॉड़ीसम महापद्मस्थितम् साक्षात्त्वया माम् तावपश्यदाम् न त्वा प्रदक्षिणीकृत्य तत्र स्थित्वा मदाज्ञया स्तुत्वा माम् मद्गुणान्वक्तुम् तेना सा भूपचक्रमे आतोद्यम् विनुदन्वीणाम् देवदत्तान् स्वरामृदम् कलम् सन्तुष्टोऽहं शिरोद्धुन्वन् तेन स्वाख्यं च तत्स्वरं दत्त्वाऽऽत्मानं प्रेमपरो जलत्वम् गतवानहम् यज्जलं मध्वपुर्जातं तद्वै ब्रह्मद्रवं विदुः कोडिशकोडिशोण्डानां राशय संलुठन्तीः इन्द्रायणफलानीवान् अन्ते तस्मिन् जलेषुभे कृष्णिगर्भमिदम् राधे ब्रह्माण्डम् मत्पदम् स्फुडम् भित्त्वा तच्चागदम् साक्षादस्मिन्वन्वन्तरे तस्मिन् मन्वन्तरे शुभे तत्स्वर्धुनि विधुपूर्वे श्रीगङ्गाम्पापहारिणी दिवि मन्दागिनी प्रोक्ता गङ्गा भागीरधीक्षितौ अधो भोगवति प्रोक्ता त्रिधास्त्रिपथगामिनि यस्नातुं गच्छद पुंसप्रणतस्य पदे पदे राजसूयाश्वमेधानां फलमस्ति न दुर्लभं गङ्गा गङ्गैदियो ब्रूयादियो सर्वपापेभ्यो विष्णुलोकं स गच्छति दृष्ट्वा पापं पीत्वा जन्मशतद्वयं स्नात्वा जन्मसहस्राणां हन्ति गंगा गङ्गाकलौयुगे सफलम् जन्म वै तेषाम् ये पश्यन्ति हि जाह्नवीम् वृथा जन्मगदम् तेषाम् येन पश्यन्ति जाह्नवीम् यथा हिद्रपदाम् प्राप्ता विरजा प्रापुर्द्रवत्वं रम्भोरुविरजाया सुधा यथा यथा कृष्णानदी विष्णुर्वेणी देवशिवो यथा ब्रह्मा कगुत्मिनी गङ्गागण्डकी च यथाक्षराः तथा द्रवत्वं सम्प्राप्त ऋभुर्नामाप्ययं मुनिः प्रेमलक्षणया यशृणोति कदामेधां पवित्रां पापहारिणीम् उल्लङ्घ्य सर्वलोकांश्च मल्लोकं यादिमानवः श्रीनारद उवाच एवमुक्त्वा प्रियां राधा मृभोराश्रमदो हरिः राधया सहितो राजन् आय्यौ मालदीवनं गोपीनां विरहं ज्ञात्वा भगवान् भक्तवत्सलाहा राधया प्रययौ कृष्णपुलिनं मङ्गलायनं तदा गोपीगण सर्वे गदमाना गतव्यधाः जगृहुस्तं घनश्यामं सौदामिन्योघनं यथा वृन्तावने हरिसाक्षात् कृष्णाधीरे मनोहरे जगौकलं गोपिकाग्भिः वंशीवादनतत्परः भगवत्कलरागेण मूर्च्छिता गोपकन्यकाः नद्यौ वेगत्वरहिता अजरत्वम् हि पक्षिणः मौनत्वम् देवता सर्वास्तम्भत्वम् देवनायकाः सजलत्वम् च तरवो निद्रात्वम् प्रगतम् जगद कृत्वा राधिकाया गोपीनां च मनोरथं ब्राह्मे मुहूर्ते भगवाना यौ नन्दमन्दिरं राधिका गोपिकाभिश्च प्राप्ता नन्दमनोरथा वृषभानुवरस्याभिसुन्दरं मन्दिरं ययौ इति श्रीगर्गसंहितायां मधुराखण्डे नारदोपाख्यानं नाम द्वाविंशोऽध्यायः ओ